ष्टाविंशः सर्गः साराक्षसेन्द्रस्य वचोनिशम् यतद् रावणस्य प्रियमप्रियार्ता सीतापि वनान्ते सिंहाभिपन्ना गजराजकन्या साराक्षसी मध्यगता च भीरुर्वाग्भिर्भृशम् रावण तर्जिता च कान्तार विजने विसृष्टा बालेव कन्या विललापसीता सत्यम् बतेदम् प्रवदन्ति लोकेना कालमृत्युर्भवतीति सन्तः यत्राहमेवम् परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या सुखाद्विहीनम् बहु दुःखपूर्णमिदम् तु नूनम् हृदयम् स्थिरम् मे विदीर्यते यन्न सहस्रधाद्यवज्राहतम् शृङ्गमिवाचलस्य नैवास्ति नूनम् मम दोषमत्र वध्याहमस्य प्रियदर्शनस्य भावन्न चास्याहमनुप्रदातुमलम् द्विजो मन्त्रमिवा द्विजाय तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव नूनम् ममाङ्गान्यचिरादनार्यशस्त्रैश्चितैश्चेत्स्यति राक्षसेन्द्रः दुःखम् बतेदम् ननु दुःखितायामासौ चिरायाभिगमिष्यतो द्वौ बद्धस्य वध्यस्य यथा निशाम् ते राजोपरोधादिवतस्करस्य हारामः लक्ष्मणः हा सुमित्रे हाराम मातः सह मे जनन्यः एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता तरस्विनौ धारयता मृगस्य सत्त्वेन रूपम् मनुजेन्द्रपुत्रौ नूनम् यत्रार्यपुत्रौ विससर्जमूढा रामानुजम् लक्ष्मण पूर्वजम् च हा राम सत्यव्रत दीर्घबाहोहा हा जीवलोकस्य हितः प्रियश्च वध्याम् वेत्सि हि राक्षसानाम् अनन्यदेव भूमौ च शय्या नियमश्च धर्मे पतिव्रता त्वम् विफलम् ममेदम् कृतम् कृतघ्नेष्विव मानुषाणाम् मोघो हि धर्मश्चरितो ममायम् तथैकपत्नी त्वमिदम् निरर्थकम् या त्वान्न पश्यामि कृशा विवर्णाहीना कृत्वा वनान्यवृत्तश्चरितव्रतश्च स्त्रीभिस्तु मन्ये विपुले क्षणाभिः संरंस्य सेवीत भयः कृतार्थः अहम् तु राम त्वयि जात कामाचिरम् विनाशाय निबद्धभावा मोघम् चरित्वाथ तपोव्रतम् च त्यक्ष्यामि धिग्जीवितमल्पभाग्या सञ्जीवितम् क्षिप्रमहम् त्यजेयम् विषेण शस्त्रेण शितेन वापि विषस्य दाता न तु मेऽस्ति कश्चिच्छस्त्रस्य वावेश्मनिराक्षसस्य शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणी ग्रथनम् गृहीत्वा उद्बध्यवेण्यद्ग्रथनेन शीघ्रमहम् गमिष्यामि यमस्य मूलम् उपस्थिता सा मृदु सर्वगात्रीशाखाम् गृहीत्वा च नगस्य तस्य चिंत राज कुल शुभांग्या विशोका तदा बहु निधर्जिता प्रवरा लोके प्रादुर्ता बहुवुपुरा भी सिद्ध्युपलिता इशे श्रीमदे वाकी आजिव्ये सुन्दरकाण्डे अष्टाविंशः